अथ दशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः यत्नेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया न प्रभवं न महर्षयः अहमादिर्हि देवाना महर्षीणां च सर्वशः यो मामजमनादिञ्च वेत्तिलोकमहेश्वरम् असम्मूढसमर्त्येषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवो भावः भयं चाभयमेव च अहिंसा समतातुष्टिः तपोदानं यशो यशः भवन्ति भावाभूताना मत्त एव पृथग्विधाः महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाताः लोक इमाः प्रजाः एतां विभूतिं योगञ्च मम यो सोविकम्पेन योगेन युज्यतेनात्र संशयः अहं सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते इति मत्वा भजन्ते माम् बुधा भावसमन्विताः मच्चित्ता मद्गतप्राणाः बोधयन्तः परस्परम् कथयन्तश्च मां नित्यं तुष्यन्ति च च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयन्ति तेषामेवानुकम्पार्थम् अहमज्ञानजन्तमः नाशयाम्यात्मभावस्थः ज्ञानदीपेन भास्वत अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भव पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुं आहुस्त्वां मृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे सर्वमेतद्वृतं मन्ये यन्मां वदसि केशव न हि ते भगवन् व्यक्तिं विदुर्देवानदानवाः स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम भूतभावनभूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतयः याभिर्विभूतिभिर्लोकान् इमां स्वं व्याप्यतिष्ठति कथं विद्यामहं योगिन् त्वाम् सदा परिचिन्तयन् चिन्त्योऽसि भगवन्मया विस्तरेणात्मनो योगम् विभोतिंच जनार्दन भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्याह्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्च मध्यं भूतानामन्त एव च आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमा मरेचिर्मरुतामस्मि नक्षत्राणामहं शशी वेदानां सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतन रुद्राणां शङ्करश्चास्मि वित्तेशो यक्ष रक्षसा वसूनां पावकश्चास्मि मेरुशिखरिणामहम् पुरोधसाञ्च मुख्यं मां सेनानीनामहं स्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहम् गिरामस्मैकमक्षरम् यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः अश्वत्थः सर्ववृक्षाणां देवर्षीणां नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः उच्चैः श्रवसमश्वानां विद्धि माममृतोत्तमम् ऐरावतङ्गजेन्द्राणां नराणां च आयुधानामहं वज्रम् धेनूनामस्मि कामधुक् प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः अनन्तश्चास्मि नागाना वरुणो या दसामहम् पितृणामरियमा चास्मि यमः प्रह्लादश्चास्मि दैत्यानां कालकलयतामहम् मृगाणां च मृगेन्द्रोऽहम् वैनतेयश्च पक्षिणा पवनः पवतामस्मि रामशस्त्रभृतामहम् झषाणां मकरश्चास्मि स्रोतसामस्मि जान्नवी, सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्याविद्यानाम् वादः प्रवदतामहम् अक्षराणाम् अकारोऽस्मि द्वन्द्वः अहमेवा क्षयः कालः धाताहं विश्वतोमुखः मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यता कीर्तिश्रीवक्च नारीणाम् स्मृतिर्मेधाधृतिक्षमा गायत्री छन्दसामहम् मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् जयोस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामप्यहं व्यासः कवीनाम् उशना कविः दण्डोदमयतामस्मि नीतिरस्मि जिगीषताम् मौनञ्चवास्मि गुह्यानाम् ज्ञानं ज्ञानवतामहम् यच्चापि सर्वभूतानां बीजं तदहमर्जुना न तदस्ति विना यत्स्यात् मया भूतञ्चराचरम् मम दिव्यानां विभूतेनां परन्तप एष तुद्देशदप्रोक्तः विभूतेर्विस्तरो मया यद्यद्विभूतिमत्सत्वम् श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम् अथवा बहुनैतेन किं ज्ञातेन तवार्जुन विष्टव्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः